अथ पञ्चमोऽध्यायः अर्जुन उवाच सन्न्यासम् कर्मणा कृष्ण पुनरियोगम् च शंससि यद्येयैतयोरेकम् तन्मे ब्रूहि सुनिश्चितम् श्रीभगवानुवाच सन्न्यासः कर्मयोगश्च तयोस्तु कर्म कर्मयोगो विशिष्यते ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टिन काङ्क्षति हि महाबाहो सुखम् बन्धात् प्रमुच्यते साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम् यत् प्राप्यते स्थानम् तद्योगैरपि गम्यते एकं साङ्ख्यञ्च योगम् यफश्यति यः पश्यति स पश्यति सन्न्यासस्तु मा योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युगुतो मन्येत तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अशनन् गच्छन् स्वपन्श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मेषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं करोति यः लिप्यतेन स पद्मपत्रमिवाम्भस कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गम् त्यज्यत्वात्मशुस्थये युगुतकर्मफलम् त्यप्यत्वा शान्तिमाप्नोति नैष्टिकी अयुक्तकामकारेण फले सत्तोनि बध्यते सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखम् वशी नवद्वारे पुरे देही नैव कुर्वन्न न कर्तृत्वम् लोकस्य सृजति प्रभुः न कर्मिर्मपलसं स्वभावस्तु प्रवर्तते नादत्ते कस्यचित् पापम् न चैव सुकृतं विभुः अज्ञानेनामृतं ज्ञानम् तेन मोह्यमिति जं ज्ञानेन तु तदज्ञानम् येषाम् नाशितमात्मनः तेषाम् आदित्यवद् ज्ञानम् प्रकाशयति तत्परम् तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः गच्छन्त्य पुनरावृत्तिम् ज्ञाननिर्भूतकल्मषाः विद्याविनयसम्पन्ने ब्राह्मणे गविहस्तिनी शुनिचैव स्वपाके च पण्डितासमदर्शिनः इहैव तैतितः सर्गः येषाम् साम्ये मनः निर्दोषम् हि समम् ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः न प्रहृष्ये प्रियम् प्राप्य नो द्विजेत् प्राप्य चाप्रियम् स्थिरबुद्धिरसम्मूढः ब्रह्म विब्रह्मणि स्थितः बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ये हि संस्पर्शजा नतेशुरमते बुधः शक्नोति हैव यः सोढुम् प्राक्षरीरविमोक्षणाद् कामक्रोधोद्भवम् वेगम् स युक्तः स सुखी नरः योऽन्तः स योगी ब्रह्मनिरुवाणम् ब्रह्मभूतोऽधिगच्छति दि। लभं ते ब्रह्मनिरुवाणम् ऋषयक्षीणकल्मषाः छिन्नद्वैधायतात्मानः सर्वभूतहिते रताः कामक्रोधवियुक्ताना यतीनाम् यतचेतसा अभितो ब्रह्म निर्वाणम् वर्वर्तते विदितात्मना स्पर्शान्कृत्वा बहिर्बाह्यात् चक्षुषुषैवान्तरे भ्रुवोः प्राणापानौ समौ कृत्वा साभ्यन्तरचारिणो यतेन्द्रियमनो बुद्धिः मुनिर्मोक्षपरायणः विगतेच्छाभयक्रोधः यः सदा मुक्त एव सः भोक्तारम् यज्ञतपसः सर्वलोकमहेश्वरम् सुहृदम् सर्वभूताना ज्ञात्मा माम् शान्तिमृच्छति ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः